अथ द्नवत दशक वेद् कर्माण्यफलपरत वर्णितानीति पर बुद्ध्वाय्य न्ये समनुचर या नईष्कर्म्यमीश मां भूद्व वेदि कुहचिद्पन कर्म वाचा प्रवृत्तिर्दुर्जेद तदपी खलुव्यपि प्रकाशे यस्त्वन्यः कर्म योगस्तव भजनमयस्तत्र हृदि मृदि क्वापि वा भावयित्वा पुष्पैर्गन्धैर्निवेद्यैरपि च विरचितैः विभो त्वत्प्रसादम् भजेयम् स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हास्त्वत्पादा सन्नया तान् द्विजकुलजनुषो हन्त शोचाम्यशान्तन् वृत्त्यर्थम् ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो दृप्ता विद्याभिजात्यैः विदधते तादृशम् मा पापोऽयम् कृष्णरामेत्यभिलपति निजम् गूहितुम् दुश्चरित्रम् निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि भ्रातामे मे वन्ध्यशीलो भजति सदा विष्णुमित्थम् बुधामस्ते निन्दन्त्युच्चैर्हसन्ति त्वयि निहितमतींस्तादृशम् मा कृथा माम् मुनिवरवपुषम् प्रीणयन्ते तपोभिः स्त्रेतायाम् स्रुक्स्रुवाद्यङ्कितमरुणतनुम् यज्ञरूपम् यजन्ते सेवन्ते तन्त्रमार्गैर्विलसदरिगदम् द्वापरे श्यामलाङ्गम् नीलम् सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वाम् भजन्ते सोऽयम् कालेयकालो जयति मुररिपो यत्र सङ्कीर्तनाद्यैर्निर्यत्नैरेव मार्गैरखिलद न चिरात् त्वत्प्रसादम् भजन्ते जातास्त्रेता कृतादावपि हि किल कलौ सम्भवम् कामयन्ते दैवात् तत्रैव जातान् विषयविषरसैर्मा विभो वञ्चयास्मन् भक्तास्तावत्कलौ स्युर्द्रमिळभुवि ततो भूरिशस्तत्र चोच्चैः कावेरीम् ताम्रपर्णीमनु किल कृतमालाम् च पुण्याम् प्रतीचीम् हा मामप्येतदन्तर्भवमपि च विभो किञ्चिदञ्चद्रसम् त्वय आशापाशैर्निबध्य भ्रमय न भगवन् पूरय दृष्ट्वा धर्मद्रुहम् तम् कलिमपकरुणम् प्राङ्महीक्षित् धन्तुम् व्याकृष्टखड्गोऽपि न विनिहतवान् सर्वेदी गुणांशात् त्वत्सेवाद्याशु सिद्ध्येदसदिह न तथा त्वत्परे चैष भीरुर्यत्त्व प्रागेव रोगादिभिरपहरते तत्र शिक्षयैनम् गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिका चन्दनम् तत् साळग्रामभिपूजा परपुरुष तथै कादशी नाम वर्णाः एतान्यष्टाप्ययत्नान्यै कलिसमये त्वत्प्रसादप्रवृद्ध्या क्षिप्रम् मुक्तिप्रदानीत्यभिदधुर्षयस्तेषु माम् सज्जयेथाः देवर्षीणाम् पितॄणामपि न पुनर्ृणी चिङ्करो वा स भूमन् योऽसौ शरणमुपगतः सर्वकृत्या निहित्वा तस्योत्पन्नम् विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वम् तन्मे पापोत्थतापान् पवनपुरपते रुन्धि भक्तिम् प्रणीयाः इति द्विनवतम्